श्रयन्ता त्रवाचिका मुदिता वेतालोल रेलमन्त्री पीयूष गोयल अवादीत् यत् एनडीए प्रशासनस्य चतुर्वर्षे रेलयान द्र्घटनास् द्विषष्टि प्रतिशत पर्यन्तं न्यूनता जम्मो कश्मीरस्य उत्तरे बांदीपुरा जनपदस्य दर्दपोरा पनारस्य विपिनेष् एकस्मिन् आतंकवाद विरोधि अभियाने सैन्यबलानां सैनिकौ आहतौ जातौ अष्टदशाधिक द्विसहस्रतमवर्षस्य कैलाश मानसरोवर कृते प्रथमजनसमूह अद्य श्भारम्भ अकरोत् अपि अफगानिस्ताने तालिबानस्य आक्रमणे दश सुरक्षाबलानि षट् नागरिकाश्च मृता पेयगोयल रेलमन्त्री पीयूषगोयल अवादीत् यत् एनडीए प्रशासनस्य चत् वर्षे रेलयान द्र्घटनास् द्विषष्टि प्रतिशत पर्यन्तं न्यूनता जाता तेन प्रोक्तं यत् रेलयानानां सुरक्षा प्रशासनस्य सर्वोच्च वर्तते गोयल निज मन्त्रालयस्य चत्षस्य उपलब्धीनां विषये अद्य नवदिल्ल्यां वार्ताहरै सह सम्भाषमाण श्रीगोयल असूचयत् यत् विकासार्थम् आधुनिकीकरणार्थं च दीर्घस्तरे निवेशम् अभवत् अस्मिन् अवसरे रेलमन्त्री अवादीत् यत् रेल मदद इति अपि च मेन्यू ऑन रेल इति चलद्रवाण्या नवीन अपि निर्माणम् अभवत् रेलमन्त्री ह्य कृष्णांगार मंत्रालयस्य कार्यभारम् अपि पश्यति अवादीत् यत् विगत चतुर्वर्षे कृष्णांगारस्य उत्पादने दशकोटिपञ्चाशत् लक्षटन इत्यस्य वृद्धि अभवत जम्मूकश्मीरस्य उत्तरे बांदीपुरा जनपदस्य दर्दपोरा पनारस्य विपिनेष् एकस्मिन् आतंकवाद अभियाने सैन्यबलानां सैनिकौ आहतौ जातौ इदानीं चिकित्सार्थं तौ चिकित्सालये स्तः सैन्यबलानां गश्ती इती दले आतंकवादिजनानाम् आक्रमणानन्तरं शनिवासरत अन्वीक्षणाभियानं प्रचलति विदेश राज्य अश्ट द्वी यात्रा विदेशराज्यमन्त्री वीके सिंह अष्टदशाधिक द्विसहस्रतमवर्षस्य वार्षिक कैलाश मानसरोवर यात्राया श्भारम्भ दिल्लीत अकरोत् यात्राया समापनम सितम्बर मासस्य अष्टमे दिनांके भविष्यति यात्राया कृते मार्गद्वयौ स्तः अफगानिस्तान अफगानिस्तानस्य उत्तरीय कुन्द प्रान्ते अद्य अफगान सैन्यबलानाम् आरक्षिबलानां च संयुक्त स्रक्षा संरोधस्थलेष् तालिबानस्य आक्रमणेष् न्यूनातिन्यूना दश सैन्यबलानि मृतानि अपि च षट् नागरिका सन्ति अधिकारी अधिकारिजन अवादीत् यत अद्य प्रात एजाल जनपदे सुरक्षा संरोध स्थलेष् आक्रमणम् अभवत अफगानिस्तानस्य गजनी प्रांते स्थले गुप्त विस्फोटेन सह बसयानस्य संघट्टनम् अभवत् अस्याम द्र्घटनायां शतजना मृता त्रयश्च आहता जाता उत्तरकोरियादेशस्य माध्यमाणाम् अनुसारेण उत्तरकोरियादेश देशेन सह नवीन सम्बन्धानां स्थापना कर्त् शक्नोति उत्तरकोरिया नेता किम जांग ऊनस्य अमरीकाया राष्ट्रपति डॉनाल्ड ट्रम्पेन सह श्व ऐतिहासिकवार्ता भविष्यति समाचारपत्र रोडांग सिन्मुन इति पृष्टिम् अकरोत् यत् श्रीट्रम्पेन सह वार्ताया कृते श्री किम सिंगाप्रे गतवान् भारतीय जनता पार्टीति दलं देशस्य अर्थव्यवस्थाया विषये दलस्य आकलनं अस्वीकृतवान्